अथ षण्णवतम् दशकम् त्वम् हि ब्रह्मैव साक्षात् परमुरु महिमन्नक्षराणामकारस्तारो मन्त्रेषु राज्ञाम् मनुरसि मुनिषु त्वम् भृगुर् नारदोऽपि प्रह्लादो दानवानाम् पशुषु च सुरभिः पक्षिणाम् वैनतेयो नागानामस्यनन्तः सुर च स्रोतसाम् विश्वमूर्ते ब्रह्मण्यानाम् बलिस्त्वम् क्रतुषु च जपयज्ञोऽसि वीरेषु पार्थो भक्तानामुद्धवस्त्वम् बलमसि बलिनाम् धाम तेजस्विनाम् त्वम् नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयम् वस्तु सर्वम् त्वमेव त्वम् जीवस्त्वम् प्रधानम् यदिह भवदृते तन्न किञ्चित् प्रपञ्चे धर्मम् श्रुतिपथविहितम् त्वत्परत्वेन भक्त्या कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते सत्ता स्फूर्ति भिन्नेश्व पदार्थेषु भिन्नम, निर्मूलं भिन्नम् निर्मूलम् विश्वमूलम् परममहमिति त्वद्विबोधम् विशुद्धं। ज्ञानम् कर्मापि भक्तिस्त्रितयमिह भवत् प्रापकम् तत्र तावन्निर्विण्मानामशेषे विषयैः भवेत् ज्ञानयोगेऽधिकारः सक्तानाम् कर्मयोगस्त्वैः विनिहितो ये तु नात्यन्तसक्ता नाप्यत्यन्तम् विरक्तास्त्वयि च धृतरसा भक्तियोगोऽमीषाम् ज्ञानम् त्वद्भक्तताम् वा लघुः सुकृतवशान्मर्त्यलोके लभन्ते तस्मादत्रैव जन्म स्पृहयति भगवन् नाकगो गो नारको वा आविष्टम् माम् मर्त्यदेहे त्वम् कृत्वा कर्णधारम् गुरुमनुगुणवातयितस्तारयेथाः अव्यक्तम् मार्गयन्तः श्रुतिभिरपि न यैः केवलज्ञानलुब्धाः क्लिश्यन्तेतीव सिद्धिम् बहुतरजनुषामन्तये वाप्नुवन्ति दूरस्थः कर्मयोगोऽपि च परमफले नन्वयम् भक्तियोगस्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धताम् मे ज्ञानायै वाति यत्नम् मुनिरपवदते ब्रह्म तत्त्वम् तु शृण्वन् गाढम् त्वत्त्वादभक्तिम् शरणमयति यस्तस्य मुक्तिः ध्यानेीहतुल पुनर सुकता चिचांचल्य हेतुरभ्याशु शक्य तदप्त निर्विण् कर्म मगे खलु विषमतमी गाढ़ोपि काम नई भुवन पते नोमी हाथ तूयो निश्च ना निहितमना बुद्ध्या भजंस्ता भक्ति मे वि हृदय गई मंक्षु नक्ष्य संगा विमलमतिर्नुद्यमानो जनो घैरां प्राह विप्रो नखलु खलु मम जन काल चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत् सर्वकारी शान्तो गतस्त्वाम् मम च कुरु विभो तादृशीम् चित्तशान्तिम् ऐळः प्रागुर्वशीम् प्रत्यतिविवशमनाः सेवमानश्चिरम् ताम् गाढम् निर्विद्य भूयो युवति सुखमिदम् गायन् भक्तिम् प्राप्य पूर्णः सुखतरमचरत् तद्वदुद्धूत सङ्गम् भक्तोत्तम् सङ्क्रिया इति षण्णवतम्